तृतीयोऽध्यायः वैशम्पायन उवाच शौनकेनैव मुक्तस्तु कुन्तीपुत्रो युधिष्ठिरः पुरोहितमुपागम्य भ्रातृमध्ये ब्रवीविदम् प्रस्थितम् मानुयान्ति मे ब्राह्मणावेदपारगाः न चास्मि पोषणे शक्तो बहु दुःखसमन्वितः परित्यक्तुम् न शक्तोऽस्मिदा न शक्तिश्च नास्ति मे कथमत्र मया कार्यम् तद्ब्रूहि भगवन्मम स्वैशम्पायन उवाच मुहूर्तमिव स ध्यात्वा धर्मेणान्विष्यताम् गतिम् युधिष्ठिरमुवाचेदन्धौवरः पुरा सृष्टानि भूतानि पीड्यन्ते क्षुधयाभिशम् ततोऽनुकम्पया तेषाम् सविता स्वपिता यथा गत्वोत्तरायणम् तेजोरसानुधृत्य रश्मिभिः दक्षिणाय नमावृत्तो मही निविशतेरविः क्षेत्रभूते ततस्तस्मिन्नोषधीरोषधीपतिः दिवस्तेजः समुद्धृत्य जनयामास वारिणा निषिक्तश्चन्द्रतेजोभिः स्वयोनौ निर्गतेरविः ओषध्यः ुमय यूताधारण पितैषताज राजो हि महात्म योनकशोधिता उधर प्रजा सर्वास्तप आस्था पुष्कलं।